अथ पञ्चदशम् काण्डम् ओजराशीदीलमार एव स प्रजापातिम् समीहीरयत् स प्रजापातिः सुवर्ण महात्मन्न पश्च्यत्तत् प्राजारयत्मभवत्तल्ललाम भवत्तरन्नहद भवत्तज्ज्येष्ठव भवत्तद्ब्रह्मा भवत्तपोः भवत्तत्सत्यम भवत्तैर प्राजाहत सो वर्धत समान भवत् समाः देवोः भवत् सदेवाराहीषाम् परिहे सरीशा नो भवत् सदेः कव्रात्योः भवत्स धनुराधत्तेन्द्रधनुः नीलवस्योदरम् लोही तम् पृष्ठाम् नीले रैवाप्रीयम्भ्रातुर्व्यम्भ्रहादिलोहीतैरक्षिषन्तम् विजीति ब्रह्मवादिराः वदन्ति समुदयश्च स प्राजेन्द्रिसरम्याचलत् सम्बृहच्च रञ्जादित्याश्च विश्वे च देव अरव्याचरन् बृहदे च वैसरथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्यः आवृश्च देतदेवम् विद्वाम् सम्भ्रात्यपवदति बृहदैव वैसरथन्तरस्य चादित्यानाम् च विश्वेयाम् च देवानाम् प्रियम् धाव भवति तस्य प्राच्याहम् दिशि श्वं विद्रोभागौ विज्ञानम् वासोहरुष्टे हरितौ प्रवर्तौ कल्मणिर्मणिः भूतम् च भविष्यच्च परिष्कन्दौ मनो विपथम् मातरिष्वाहा च पवमानश्च विपदबाहौ वातः सारथिरेष्वा कीर्तिश्च यशश्च पुरस्तरा वीरम् कीर्तिर्गच्छत्यायशो गच्छ निजदेवम् यदा समुदतिष्ठत्सदक्षीणाम् निशमनुम्यजलत् अयज्ञायज्ञियम् च वामदेव्यम् च यज्ञश्च यज्ञानज्ञराज वैभवादेव्या यज्ञानजमानाय जुभ्रष्टावृश्च देवदेवम् विद्वांसम्राज्यमुपवदति यज्ञानज्ञस्य च वैशवामदेव्यस्य जज्ञस्य च यजमानस्य जपदूराम् च प्रियङ्गाम भवति तस्य दक्षिणाराम् दिशि उषा पुंश्चरीमन्मतोत्रिकेश हरितौ प्रवर्तौ कल्पनिर्मणिः अमावास्या च पौर्णवासी च परिष्कन्दौ मनोः विपथम् च पवनवानश्च विपतवाहो वातः कीर्तिश्च इशश्च पुरःसरा वैरम् कीर्तिर्गच्छत्यायशो गच्छति यदेवम् वेद समुदतिष्ठत् स प्रतीचीर्दिशमन्याचलत् तम् वै रूपम् च वैराजम् चापश्च वरुणश्च राजाम् व्यचलन् वै रईसराजा चाभ्य वरुणा चवृष्ट दे दिव साम्राज्य मुपदे वैरूप से मैषवै राज वरुण से राज प्रियम भवीचा गधौ विज्ञानम् वासोहरस्मैषं रात्रिकेश हरितौ प्रभक्तौ कल्मलिर्मणिः वाश्च रात्रे जष्कन्दौ मनोहविपथम् मातरिष्वा च भवमानश्च विपधवाहौ वातः सारथिरेष्वा प्रचोदः कीर्तिश्च यजश्च पुरःसरा वैरम् कीर्तिर्गच्छत्यायसो गच्छति यदेवम् वेद समुदतिष्ठत्सौ दीजे मन व्याचरत् तम् श्वेतम् च नौधरम् च सप्तर्षयश्च सोमश्च राजानम् व्याचनन् शैताय च वैशनो दसाय च सप्त ऋषिभ्यश्च सोमाय च राज्ञामिष्टते एवम् विद्वाम् सम्भ्राप्यमुपमदति शैतस्य च वैशनो दसस्य च सप्त ऋषीणाम् च सोमस्य च राज्ञ प्रियम् धाम भवति तस्यो विद्युत्वम् स्थले स्तन यत्र महागतो विज्ञानम् वासो हृष्टिरात्रिकेश हरीतौ प्रवृत्तौ गल् मणिर्मणिः श्रुतम् च विश्रूषम् च परिष्कन्दौ मनोः विपथम् कीर्तिश्च यशश्च पुरःसरा वैरम् कीर्तिर्गच्छत्यादगा गच्छति य देवम् वेदा सम्वत्सरमूर्धो तिष्ठत्तम् देवाब्रुवन्वाद्य किम् नु तिष्ठसीति सोऽ ब्रवीदा सन्ध्येम् ये सम्भरन्ति तस्मै राज्यायासन्धीम् समभरन् तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्ताम् शरश्च वर्षाश्च द्वौ बृहश्च रसन्तरम् च रोचे आस्तापम् यज्ञानिज्ञम् चावदेव्यम् च चा तिरस्ये वृषप्रान्तस्तन्त भो यजोंशतिर्यम् चाह वेद दमुद्गीतोपश्रयः तामाः सन्दीन्द्रात्यारोहत् तस्य देव जनाः परिष्कन्दा आसन् सङ्कल्पा प्रहार्या विश्वानि भूतान्योपसदाः विश्वान्येवास्य भूतान्योपसतो भवन्ति एवम् वेद तस्मै दिशः सन्तौ मासौ गोप्ता रामकुर्वम् बृहच्च रसन्तरम् चानुष्ठातारौ वासन्तामेनम् मासौ पाच्यादिशो गोपायतो बृहच्च रसन्तरम् चानुतिष्ठगोजनेवम् वेद तस्मै दक्षिणायातिशः गैष्मौ मासौ गोप्ता रामगुरूपम् यज्ञायज्ञयम् च वामदेव्यम् चानुष्ठातारौ श्रीष्माहावैनम् मासौ दक्षिणायाधिशो गो भारतोज्ञिनम् च वामदेव्यम् चानोतिष्ठतो यदेवम् मेद तस्मै प्रतीच्यादिशः वार्हेणौ मासौ गोप्ता रामगुरो वन्वैरूपम् च वैराजम् ी काव्यम् मासौः प्रतीत्यादिशो गो पायतो वैरूपम् च वैराजम् च नोदिष्टम् वेद तस्मामुदीहत्यादिशः शारदौ मासौः गोप्ता रामकुरु वञ्चयितम् च नौसङ्गानुष्ठातारौः शारदावेन मासा उदीत्या दिशो गोः पायतश्चैतम् च नौधम् चानुोतिष्ठतोयरेवम् वेल तस्मै ध्रुवायाः दिशः हैमनौ मासौ गोताराभूमिम् चाग्मिम् च अनुष्ठातारौ हैमनावेदम्मासौ ध्रुवायाः दिशो गो पारतो भूमिश्चाग्मिश्चानोतिष्ठतोयरेवम् वेल तस्माः ऊर्ध्वायाः दिशः शैषिरौ मासौ गोक्तरामगुरु वन्दिवम् च नित्यम् चानुष्ठातारौ रुष। शैषिरावेम् मासाः ऊर्ध्वायाः दिशो गोपायतो नित्यष्टा नो तिष्ठा नोज देवम् वेद तस्मैत्वाच्याः दिशोऽन्तर्देशाद्भवविश्वासमनुष्ठातारम भवयेन विश्वासप्राच्याः दिशोम् तद्देशादनुष्ठातानोतिष्ठतिनैनम् सर्वो न भवो नेषाहानः नाश्च पशूनुनाम् घीरस्तिजरेवम् वेदा रस्मै दक्षिणायादिशोम् तद्देशाच्छर्वविश्वासमनुष्ठातारमकुर्वन् सर्ववासो दक्षीराजादिशोरम् तद्देशादनुष्ठातानोतिष्ठतिनैनम् शर्वा न भवो देशाहानः नास्य पशून्न समानाम् हीनस्त्रिजनेवम् वेद तस्मैः प्रतीच्याहादिशोऽम् तद्देशात् परशुपति विश्वासमनुष्ठातारेव कुर्वन् पशुपतीरेण विश्वासः प्रतीच्चादृशोऽ तर्देशादनुष्ठादानुतिष्ठतिरैरम् तर सर्वो न भवो निधाहारः नास्य पशून्न समानान् हीरस्पेवम् वेद तस्मामुच्चादृशोऽन्तर्देशादुग्रम् देव विश्वासदानुष्ठादारमकुर्वन् उग्रयेनम् देवैः श्वासबुजैश्च दिशोऽन्तर्देशादनुष्ठातारोतिष्ठति नैनम् सर्वो न भवो देशा दे नः नास्य पशोमिमस मानाम्भिरस्तिजदेवम् वेद तस्मैः ध्रुवायाः दिशोऽन्तर्देशाद्धुग्रविश्वासमनुष्ठातारमकुर्वन् रुद्रयेण विश्वासो ध्रुवायाः दिशोन्तर्देशादनुष्ठातारोतिष्ठधिलैरम् दे शर्वो न भवो नेषा नास्त्यशोन्नस मानान्धीरस्ति च देवम् वेद तस्माः ऊर्ध्वायाः दिशाम् तद्देशान्माह देव विश्वासमनुष्ठातारमकुर्वन् दे दे महादेवयेन विश्वासपूर्धाजा दिशोऽन्तर्देशायनुष्ठातारो तिष्ठति लैनम् सर्वो न भवो नेषा नः नास्त्य पशोन्न समानाम् घीरस्ति जेवम् वेद तस्मै सर्वेभ्योऽन्तर्देशेभ्य ईशाहार विश्वासमनुष्ठातारमकुर्वन् ईशाहारेन विश्वासः सर्वेभ्यो अन्तर्गेभ्यो अनुष्ठातानुतिष्ठतिरैरम् शर्वानुभवो निशाहारः नास्तेभ्योन्नमानाम् हीरस्तिज एवम् वेद सध्रुवान् दिशवनुव्यजलत् तम्भूविष्ठाग्निष्टौषधरश्च वनस्मतरष्टवानस्मत्याश्च विरुधश्चानुव्यजलन् भोगेश्च वैशोग्नेश्चौषधीनाम् च वनस्पतिहीनाम् च वनस्पत्यानाम् च विरुधाम् च प्रियम् धाम भवति यदेवम् वेदा स भोर्वाम् दिशवन व्याजलत् तमृतम् च सूर्यश्च चन्द्रश्च नक्षत्राणि चालु व्याजलन् ऋतस्य च वै सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणाम् च प्रियम् धाम भवति ज एवम् वेदा समुत्तमाम् दिश मनव्यजलदृगश्च सामाहारि चजुहंसिज ब्रह्म चारुव्यचलन् रिजाम् च वैशलाम्नाम् च यदूषाम् च ब्रह्माणश्च प्रियम् भवति ज वेदा सबहरीम् दिश मनव्यजलद तविहासश्च पुराणम् च गाथांसेश्चारुव्यजलन् इतिहासस्य जवैतपुराणस्य निराराञ्च नाराशंसेनाहञ्जप्रियम् धाम एवम् वेदा सपरमान्दिशपनुव्यजलत् तवाहबीरश्च गार्गपद्यश्च दक्षिणाग्निश्च यज्ञश्च जयमानश्च पशवश्चारुव्यजलन् आहवदीयस्य च वयस गार्हपत्न्यस्य च दक्षिणाग्नेश्च यज्ञस्य च जलमानस्य च पशूनाम् च प्रियम् धाम भवति च एवम् वेद सोनाः निष्टान्निशमनव्यजलत तमृतमश्चार्तमाश्च लोकाश्च लौक्याश्च ऋतूनाम् च वैशार्तवानाम् च लोकानाम् च लौक्यानाम् च मासानाम् चार्धमासानाम् चाहोरात्रयोष्टप्रियम् धाम भवति एवम् वेद सोना वृत्त्वान् दिशमनम् व्यजरत्र तो नामत्स्यम् न मन्यत बन्दिष्टादिश्चेडा चेन्द्राणी चानुजलम् विदेहश्च वैसोदीतेश्चेदाहाराश्चेन्द्याश्च प्रियम् धाम भवति जेवम् वेर सदिशोऽनुव्यचरत् तम् विराडनुव्यचरत् सर्वे च देवाः सर्वाश्च देवताः विराजश्च वै च सर्वेषाम् च देवानाम् सर्वासाम् च देवतानाम् प्रियम् धाम भवति जेवम् गेर स सर्वाहानन्तर्देशानुव्याचरत् ताम् प्रजापादिश्च परवेष्टे च पिता च पितामहश्चाहानुव्याचरन् प्रजापादेश्च वैरपादवेष्टिनश्च पितुश्च पितामहश्च च यम् धाम भवति एवम् वेदा समाहिमासदृग्भूत्वान्तम् पृथिव्या आगच्छत् स सा त्वाम् प्रजापादिश्च परमेष्ट्यै च पिता च पितामहश्चापश्च श्रद्धा च वर्षम् भूत्वा रव्यावर्तयन्त ऐरमापोः गच्छत्यैनम् श्रद्धा गच्छत्यैनम् वर्षम् गच्छति जनेवम् वेद त्वाम् श्रद्धा च ऐनम् श्रद्धा गच्छत्यैनम् यज्ञो गच्छत्यैनम् लोको गच्छत्यैन मन्नम् गच्छत्यैन मन्नाद्यम् गच्छति य एवम् वेद सो रज्यदो राजन्यो जायत सविरसवम् धूरन् मन्नाद्यमभ्युदयतिष्ठते विशाञ्च वैशतमम् धूराञ्चान्नश्च जान्नाद्यश्च च प्रियम् धाम भवतिजदेवम् वेद स विषानुम् यं सभा च समितिश्च तर्गस्यैवम् निन्दान् राज्यो राज्ञोतिथेर्घ नागच्छेत् श्रेयाहम् सवेदमात्मनो वानये रथाः क्षत्राय नावृष्टते रथाः राष्ट्राय नावृष्ट्यते अतो वै ब्रह्म च क्षत्रम् चोदतिष्ठताम् तेन अक्रूरहङ्कम् अतो वै बृहस्पतिमेव ब्रह्म प्रावीशत्तीन्द्रम् क्षत्रम् तथा वा इति अतो वै बृहस्पतिमेव ब्रह्म प्रावेशतीन्द्रम् क्षत्रम् इयम् बाबु पृथिवी बृहस्पतिर्त्यो देवेन्द्राः अयम् बाबु अग्निर्ब्रह्मा ऐनम् ब्रह्म गच्छति ब्रह्म गच्छति पृथिवीम् बृहस्पति भग्नम् ब्रह्म मेद ऐनामिन्द्रियम् गच्छतेन्द्रियाम् भवति याधित्यम् क्षत्रम् विरमिन्द्रम् मेद तद्यस्यैवम् विन्द्वान् भ्राद्योतेधिर्गृहामागच्छेत् स्वयमेवमभ्युदेत्यब्रूयात्रा त्यक्त्वा रात्योदकम् प्राप्य तर्पयम् रौरात् ियम् तथा स्तौराज्ञयेवस्तथा स्तौराज्ञयनिकामस्तथास्त्विति यणे नमाहौराज्ञा वात्सेरिति पथदेव तेन देवयानानवरुन्धे यणे नमाहौराच्योदगमित्यवदेवते रावरुन्धे यदे नमाहं राज्य तर्पयन्ति प्राणमेव तेन मर्णीयाम् सङ्कुरुते इरे नमाहं रात्य प्रियम् तथास्ति प्रियमेव तेनावरुन्धे अय नमम् प्रियम् गच्छति प्रियः प्रियस्य भा निज देवम् वेद ये नमाहं गच्छति वशीवदिराम् भवति यदेवम् वेद ये हे नवाहं रात्येवन्धे अयम् निकामो गच्छति निकामेरिकामस्य भवति य एवम् वेद तद्यस्यैवम् विन्दाङ्ग्रात्य उद्धृतेष्वग्निष्वधिष्युते गृहोत्रे दीधिर्गृहानागच्छेत् स्वयमेरमभृदेत्य ब्रूजात्यातिसृज हो्यामे स चातिसृजेजोहुयान्न चातिसृजेन्न जोहुयात् स एवम् विदुषाव्राज्येनातिसृष्टो जुहोति प्रापितृजानम् बन्धान् जानातिप्रदेहेभारम् न देवेष्वाभिश्च देहुतमस्य भवति पर्यस्यात्म्युल्लाक आयतनम् शिष्यते य एवम् विदुषाव्राज्येनादिसृष्टो जुहोति अथय एवम् विदुषाव्राज्येनानादिसृष्टो जुहोति न विध्याणम् पन्थानम् जानाति रदेः भजानम् आ देवेषु नाश्चास्तिल्लोकायतरम् शिष्यते यदेवम् विदुषा राज्येनानतिसृष्टो जुहोति राज्ञस्यैवम् विद्वाम् रात्यरेखाम् रात्रिमती शीर्गृहे वसति देव पृथिव्याम् पुण्याः लोकास्तादेव तेनावसुन्धे राज्ञस्यैवम् विद्वान् राज्योः विजीयाम् रात्रिपदीशीर्गृहे वसति ये अंतरक्षे पुण्यास्तावरुन्धे अदस्व विद्वान्तस्तृती गृृेवसरी ये दिवु्यास्तावर अदस्व विद्वान्जुर्ध्यम रात्रेवसरी ये पुण्यानाम् पुण्याः लोकास्तादेव तेनावरुन्धे नद्यस्यैवम् विन्मान् राज्योपरिमिता रात्रिरतीशर्गृहेऽवसति यैवापरिमिताः पुण्या लोकास्तादेव तेनावरुन्धे अदयस्याज्यो रात्य प्रभोराम् बिभ्रे शर्गृहानागच्छेत् कषेदेन दैनम् कर्षेर अस्यै देवता या उदकैयाः चाभिमाम् देवताम् वादरिमाभिमाम् देवताम् परि वेवेष्मेत्यैनम् परि वेवेयात् तस्याः वेवास्य तद्देवतायाम् बुतम् भगवति जनैवम् मेल सयत्प्राचीनम् दिश मनव्यचरन्मानूतम् शर्धो भूत्वारम् व्याचरन् मनोहन्नानम् कृत्वा मनसाम् नादेज एवम् वेद सयद्गर्कीणाम् दिश वरम् व्यचरदिन्द्रो भूत्वानु व्याचरत् बलमन्नादम् कृत्वा बलेनाम् नादेलान्न मत्विज एवम् वेदा सयद्वीरेन्द्रिश मरव्यचरद्वरुणो राजा भूत्वारुङ्ग्य चलमोहन्नाारीः कृत्वा अद्भिरन्नारेभिरन्न मध्ययरेवम् वेद सय दुरीजेन्द्रिशमरं च रत्सोमो राजा भूत्वारुङ्ग्य चलत्सप्तरिभिर्हुत आहूति नारीम् कृत्वा आहुत्यान्नाद्यान्न मध्य एवम् वेद स यद्ध्रुवान्विषमनुव्यजनद्विष्णुर्भूत्वानुव्यजनद्विराजमन्नादेम् कृत्वा विराजान्नाद्यान्नमत्यज एवम् वेद स यत्पशूननुव्यजन्रुद्रो भूत्वानुव्यजनदोषधीरम् नारेः कृत्वा ओषधीभिरन्नादेभिरन्न मत्यज एवम् वेद सयत्विरेण नुव्यजलज्ञमहाराजा भवत्वानुव्यजलत्स्वधाकारमन्नादम् कृत्वा स्वधाकारेणान्नादेनान्न मध्यज देवम् वेद स्वयम् नष्याननुर्भवो त्वानुव्याजलत् स्वाहाकारमन्नादम् कृत्वा स्वाहाकारेणाम् नादेनान्न मध्यज देवम् वेद शयतो दिशमनव्यचर बृहस्पतिर्भो त्वारुम्य जलद्बहत्कारवन्नादम् कृत्वा बहत्कारेणाम् नादेनाम् ना न मत्य एवम् वेद श्रयदेवानभव्यच कृत्वा मन्युनान्नादेनाम् न मत्यय सयत् प्रजाव्यचल त्वजावादन् भूत्वा रव्याजलत् प्राणवम् नादम् गत्वा प्राणेनाम् नादेनाम् न वत्यज एवम् वेदा सयत्सर्वाः अन्तर्देशान् नव्यजलत् परमेष्ठी भूत्वा रव्याजलद्ब्रह्मान्नादम् गत्वा ब्रह्माणाम् नारेनान्न मत्यज एवम् वेदा तस्य स्रप्त प्राणा सप्तबाणा सप्तव्यानाः तस्य उरात्यस्य योश्च प्रथमः प्राणवूर्धो नामायंसो अग्निः तस्य उरात्यस्य योश्च द्वितीयप्राणप्रौढो नामासौदाहादित्यः तस्य योऽश्च तृतीयः प्राणो ओभ्यूढो नामासौ सचन्द्रमाः कश्च राज्यस्य योश्च चतुर्थ प्राणो विभोर्नामायम् सपमालः कश्चौ राज्यस्य योऽस्य पञ्चम प्राणोयोयम् नाम दारिमालाः कस्य राज्यस्य योऽषष्टप्राणप्रियो नाम दरिमे वधवाः तस्यौराज्यस्य योश्च सप्तमप्राणोपरिमितो नाम दायिवा प्रजा तस्यौराज्यस्य योऽश्च प्रथमो बालस्तामौर्णमाधी तस्यौराज्यस्य योऽस्य द्वितीयो बालस्ताष्टा तस्यौराज्यस्य योऽस्य तस्य उरात्यस्य योष्ठो बाणस्ता श्रद्धा तस्य उत्यस्य योश्च पञ्चमो बाणस्यादीक्षा तस्य योश्च षष्ठो बाणस्य यज्ञः तस्य व्रात्यस्य योश्च सप्तमो बाणस्ता हिमालक्षिणाः तस्य योऽ प्रथमो ज्ञानस्यैरम् भूमिः तस्य योऽस्य द्वितीयो ज्ञानस्तदन्तरिक्षम् तस्य योऽस्य तृतीयो ज्ञानशाद्योः तस्य योऽस्य चदर्थो व्यानस्तानि तस्य उरात्यस्य योऽस्य पञ्च एवं व्यानस्तरिताः तस्य व्राच्यस्य योऽस्य षष्ठो व्यानस्तार्तवाः तस्य व्राच्यस्य योस्य सप्त एवमो व्यानश्च संवत्सरः तस्य व्राच्यस्य समानमर्थम् परेयन्ति देवाः संवत्सरम् वादेतत् तवनुपरेयन्ति व्राच्यम् च तस्य व्रात्यस्य यदा नित्यमभिधम्भिधम् नमावास्यान्त्यैव तत्तो हर्णमासीम् च तस्य व्रात्यस्य एकम् तदेहेषामृतत्वमित्याहूतिरेव तस्य व्रात्यस्य यदस्य लक्ष्येणसौधाः नित्यो यदस्य दव्यवक्षसौधचन्द्रमाः व्योः सेणः कर्ण स्य सव्यम् सह अहोरात्रे नासीचेतिष्ठादीतिश्च दीर्णे सम्वत्सरः शिरः अन्ना प्रत्यङ्गात्या रात्र्या प्राङ्गहोरात्या इति पञ्चदशम् काण्डम् समाप्तम् अथ षोडशम् काण्डम् ष्टो अभाम्रेशभो देसृष्ट अग्नयोः दिव्याः रुजन् परि रुजम् वृणम् प्रभृषन् मृगो मानोः खनो निः दूषिस्तनो दीशे इशम् तमधिशयापितम् माभ्यवक्षे तेन तमभ्यति रामोस्मान् वेष्टिजम् वयम् विस्मः अहमज्ञापदिनमन्त्रम् भवद्भ्यवयोजामि योप्सा आग्निर्जम् श्रेजामि मृकम् खनिम् तदू दोषिम् यो वा आपोऽग्निरा विवेशधर्मेण विरुद्धो घोरम् तदेतत् इन्द्रस्य वरिन्द्रियेणाभिजिम् चेत् अरिप्र आपो अपरिप्रभस्मत् प्रास्मलेनो शिरेण वाचक्षूषा पश्च तापः शिवया तन्मोपस्पृश तत्त्वजम् मे शिवानज्ञेन सुषरो हवामहे मय क्षत्रम् वर्जाधत्तदेवी निर्दूरम् मन्ये ऊर्जा मधूमदेवाच मधूमदे स्थ मधूमदे गोपा उपभूतो गोपीशः सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रम् श्लोकम् श्रूयासम् शुश्रुतिश्च मोपश्रुतिश्च माहा सृष्टाम् सौवर्णम् चक्षुरजः सञ्ज्योतिः श्रीराम् प्रस्तरोः शिनमोऽस्तु दैवाय प्रस्तर मूर्धाहम् राजीनाम् मूर्धा हृदयश्च मामेरश्च माशिष्टाम् मूर्धा च मा विधर्मा च महाशिष्टा पूर्वश्च मा चमासश्च महाशिष्टाम् धर्ता च मा धरुणश्च महाशिष्टा योगश्च माद्रमाविश्च महाशिष्टा मातृधारुश्च मातरिष्वा च महाशिष्टा मृहस्पतिम् महात्मा निर्मणा हृद्याः असन्तापं मे हृदयमुर्वीगं यो दिस्समुद्र अस्मि धर्मणा नाभिरहम्बीरन्नाभिः समानानाहम् भूयासन् सा अमृतो वत्येष्व माम् प्राणोहाणोगाद शोर्यो मा ृथिव्याज्षाभ्य सरस्वती पार्थिणशिष्ट माजने प्रेस्या सर्वण शक्स्त पशव मोपस्थे वरुण मे प्राणवन मे दक्ष्यं दधा विद्मदेः स्वप्नचरित्रम् नाह्या पुत्रादि रमस्य करणः अन्तर्कोधिमृत्युरधि रन्ताः स्वभ्रतधानम् विद्मधरः स्वप्न दुष्व्याः त्वाहि विद्मदेः स्वप्नचरित्रम् निर्वृत्या पुत्रामस्य करणः अन्तर्कोधिमृत्युरधि रन्दाः विद्मलेः स्वप्नचरित्र भूत्या पुत्रो षमस्य कर्णः अन्धगोरिमृत्युरधि हन्ताः स्वप्नदधासंनसरः स्वप्न द्रष्टव्याः त्वाहि विद्मरेः स्वप्नचरित्रम् विद्भूत्या पुत्रो षमस्य कर्णः अन्धगोरिमृत्युरधि हन्ताः स्वप्नदधाः स्वप्न द्रष्टव्याः त्वाहि विद्मदेः स्वप्न चरित्रम् पराः भवत्या पुत्रो त्रिरमस्य करणः अन्तर्गोधिमृत्युलधि तन्त्वा स्वप्नद धातम् विद्मधनः स्वप्न दुःस्वप्न्याः त्वाहि विद्मदेः स्वप्नचरित्रम् देवयामिनाम् पुत्रो हि रमस्य करणः अन्तर्गोधिमृत्युले तन्त्वा स्वप्नदधानम् विद्मधन स्वप्न दुष्वप्न्याः त्वाहि अजे महात्या भूमानाः गसोऽभयम् पुरुषो यस्माद्दुष्वज्ञादभेष्माप तदुच्छतु द्विषदेतत्वराहावः शपदेतत्वराहावः यन् विष्मायच्च नाद्येष्टितस्मा येन गमयामः उषा देवी वाचा संविदानाव देव्यो ऊषलाः संविदाना बृहस्पतिर्वाचस्पते राजम् विधानो वाचस्पते बृहस्पति नाशम् विधानः ते एवमुष्मे परा वहन् परायाहन् दुर्नाम् नः सदाः कुम्भीरलाः देशीकापीय जाग्रद्दुष्वाप्याम् स्वप्नय दुष्वाप्याम् अराहमिश्च वरा न वित्त सङ्कल्पानमुच्चा गृहपायाः तद उष्वाः अद्रे देवाः पराः भवन्तोऽ यथा सद्विधो नोदराधो तैरैनम् मिथ्याभ्यभोत्यैनम् मिथ्या विनिर्भोत्यैनम् विद्या विपराः भोत्यैनम् मिथ्या विग्राह्यैनम् मिथ्या वि तव दैनम् विद्यामि देवाना वैरम् घोरैः क्रूरे प्रेषेरभिप्रेष्यामि वैश्वारस्यैरम् दंश्च योरपि दधामि एवानेवावसागर योऽस्मान् वेष्टिरमात्मा वेष्टयम् वयम् न श्मस आत्मानम् वेष्टु निषम् तम् दिवो नः प्रीथिम् जाय अन्तरिक्षाद्भयाव सुजामंश्चाक्षुरः इदमहामुष्यायणे एवष्या पुत्रे दुष्वम् वृजे यदा दोरादो अभ्यगच्छन्त्योषायत्पूर्वाम् रात्रिम् यज्ञाग्रद्यत् श्रुत्वा यद्दिवायन्नक्तम् यदा गच्छामि तस्मादैरमवादले कण्डहितैन मन्दस्पुरस्य वृष्टिरभिश्रीः समवेयाः